शिवगीता त्रयोदशोऽध्यायः सूत उवाच एवं श्रुत्वा तुष्टो मतिमताम्बरः पप्रत्यगिरिजाकान्तम् सुभगं मुक्तिलक्षणम् श्रीराम उवाच भगवन्करुणाविट्टहृदय त्वं प्रसीदमे स्वरूपलक्षणं मुक्तेः प्रब्रूहि परमेश्वर श्रीभगवानुवाच सा लोक्यमपि सारूप्यम् साष्टर्यं सायुज्यमेव च कैवल्यं चेति तां विद्धि मुक्तिं राघवपञ्चधा मां पूजयति निष्कामः सर्वदा ज्ञानवर्जितः समे लोकम् समासाद्य गुङ्क्ते भोगान् यतेप्सितान् ज्ञात्वा माम् पूजयेद्यस्तु सर्वकामविवर्जितः मया समानरूपः सन् मम लोके महीयते इष्टा मत्प्रीत्यैकुरुते तु यः यत्करोति यदश्नाति यज्जुहोति ददाति यत् यत्तपस्यति तत्सर्वम् यत्करोति मदर्पणम् मल्लोके सश्रियं पुङ्क्ते मत्तुल्यम् प्राभवम् भजे यस्तु शान्त्यादियुक्तः सन् मामात्मत्वेन पश्यति स जायते परं ज्योतिः अद्वैतं ब्रह्म केवलम् आत्मस्वरूपावस्थानम् सत्यं ज्ञानमनन्तम् तदानन्दम् ब्रह्म केवलम् सर्वधर्मविहीनम् च मनोवाचामगोचरम् तजातीयविजातीयपदार्तानामसम्भवात् अतस्तद्व्यतिरिक्तानाम् अद्वैतमिति सञ्ज्ञितम् मत्वा रूपमिदम् राम शुद्धं यदभिधीयते मय्येव दृश्यते सर्वम् जगत्स्तावरजङ्गमम् योम्नि गन्धर्वनगरम् यथादृष्टम् न दृश्यते अनादि अमिद्यया विश्वम् सर्वम् मय्येव कल्प्यते मम स्वरूपज्ञानेन यदा अविद्या प्रणश्यति सदा एक एव वर्ते अहम् मनोवाचाम् अगोचरः सदैव परमानन्दः स्वप्रकाशः चिद् आत्मकः न कालः पञ्चभूतानि न दिशो विदिशश्च न मदन्यत्नास्ति यत्किञ्चित् तदा वर्तेऽहं ये कलः न सन्दृशे तिष्टति मे स्वरूपम् न चक्षुषा पश्यति मां तु कश्चित् हृदा मनीषा मनसा अविक्लृप्तम् ये माम् विदुस्तेहि अमृता भवन्ति राम उवाच कथं भगवतो ज्ञानं शुद्धम् मद्यस्य जायते तत्र उपायं हरब्रूहि मयि ते अनुग्रहो यदि श्रीभगवानुवाच विरज्य सर्वभूतेभ्यः आविरिञ्चिपदादपि गृणाम् वितद्य सर्वत्र पुत्रमित्रादिकेष्वपि श्रद्धालुर्भक्तिमार्गेषु वेदान्तज्ञानलिप्सया उपायनकरो भूत्वा गुरुम् ब्रह्मविदं व्रजे सेवामिः परितोष्य येन चिरकालं समाहितः सर्ववेदान्तवाक्यार्थम् शृणयात् सुसमाहितः सर्ववेदान्तवाक्यानाम् मयि तात्पर्यनिश्चयम् श्रवणम् नाम तत्प्राहुः सर्वे ते ब्रह्मवादिनः लोहमण्यादिदृष्टान्त युक्तिभिर्यद्विचिन्तनम् तदेव मननम् प्राहुः वाक्यार्थस्य उपबृंहणम् निर्ममो निरहङ्कारः समःसङ्गविवर्जितः सदा शान्त्यादियुक्तः सन् आत्मनि आत्मानमीक्षते यत्सदा ध्यानयोगेन तन्निदिद्यासनं स्मृतम् सर्वकर्मक्षयवशात् साक्षात्कारोऽपि च आत्मनः कस्यचिज्जायते शीघ्रम् चिरकालेन कस्यचित् कूटस्थानीकर्माणि कूटिजन्म आर्जितान्यपि ज्ञानेनैव विनश्यन्ति न तु कर्मायुतैरपि ज्ञानात् ऊत्वं तु यत्किञ्चित् पुण्यं वा पापमेव वा क्रियते बहुवा अल्पम् वा न तेन अयम् विलिप्यते शरीर आरम्भकम् यत्तु प्रारब्धं कर्म जन्मिनः तद्भोगेनैव नष्टम् स्यात् न तु ज्ञानेन नश्यति निर्मोहो निरहङ्कारो निर्लेपः सङ्गवर्जितः सर्वभूतेषु च आत्मानम् सर्वभूतानि च आत्मनि यः पश्यन् सञ्चरत्येषः जीवन्मुक्तो अभिधीयते अहि निर्मोचनीयद्वत् द्रष्टुः पूर्वं भयप्रदा ततो अस्यन न भयं किञ्चित् तद्वद्रष्टुः अयं जनः यदा सर्वे प्रमुच्यन्ते कामाये ये अस्य वशं गताः अत मर्त्योऽमृतो भवति एतावदनुशासनम् मोक्षस्य न हि वासोऽस्ति न ग्रामान्तरमेव वा अज्ञानहृदयग्रन्थिनाशो मोक्ष इति स्मृतः वृक्षाग्रच्युतपादो यः स तदैव पतत्यधः तद्वत् ज्ञानवतो मुक्तिः जायते निश्चितापि तु तीर्ते चाण्डालगेके वा यदि वा नष्टचेतनः परित्यजन् देहमिमम् ज्ञानादेव विमुच्यते संवीतो येन केन अस्मन् वा अभक्ष्यमेव वा या नो यत्र कुत्रापि सर्वात्मामुच्यते अत्र सः क्षीरादुद्धृतम् आज्यम् तत्क्षिप्तम् पयसि तत्पुनः न तेनैव एकताम् याति संसारे ज्ञानवान् तथा नित्यम् पठति अध्यायं इमं इमम् राम शृणोति वा समुच्यते देहबन्धात् अनायासेन राघव अतः संयतचित्तस्त्वम् नित्यम् पटमहीपते अनायासेन तेनैव सर्वथा मोक्षम् आप्स्यसि इति श्रीपद्मपुराणे शिवगीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे मोक्षयोगो नाम त्रयोदशोऽध्यायः